यक सेव्यते नाटके दर्शकै नायक सेव्यते निर्धनै याचकै नायकै याचकै जानते स्वयं गीतमर्माचित् जानते ये स्वयं ीतमर्म क्वचित् जानते स्वयं गीतमर्म क्वचित् जानते स्वयं गीतमर्म क्वचित् गीतसं मोहितये गायक सेव्यते गीतसम्मोहितै गायकः सेव्यते नाटके दर्शकै नायक सेव्यते निर्धनै याचकै गायक सेव्यते भक्तिमन्तास्व शक्ति कलौ भक्तिमस्वता शक्तिमलौ भक्तिमस्वता शक्ति कलौ भक्तिमन्तास्वता दुर्बलै मानवै जयकते दुर्बलै मानवै जयकेव नाटके दर्शकै नायक <स्थाँगा> पदाम् अर्जने तत्परा पञ्चका सम्पदाम् अर्जने तत्परा पञ्चका सम्पदाम् अर्जने तत्परा पञ्चका सम्पदाम् अर्जने तत्परा लुण्ठकैर्वित्तसंसायक सेव्यते लुण्ठकैर्वितसंसायक सेव्यते नाटके दर्शकैर्नायक सेव्यते निर्दनैर् याचकै नायकेव्यते यादृशी भावना तादृशी संहति यादृशी भावना तादृशी समति यादृशी भावना तादृशी समति यादृशी भावना तादृशी समहति पायकैः पायकैः किं सुरापायकः सेव्यते पायकैः किं सुरापायकः सेव्यते नाटके दर्शकैः नायकः सेव्यते निर्धनै याचकैः नायकः सेव्यते मार्गिते किन्न विद्यार्थिभिः प्राप्यते मार्गिते <laughs> किन्न विद्यार्थिभिः प्राप्यते मार्गिते किन्न विद्यार्थिभिः प्राप्यते मार्गिते किन्न विद्यार्थिभिः प्राप्यते शिक्षकैस्था न सेव्यते शिक्षकैः चल सन्दायकः सेव्यते नातके दर्शकैः नायकः सेव्यते टके दर्शक नायक सेव्यते निर्धन याचक गायक सेव्यत निर्धन याचक नायक सेव्यत निर्धन याचक बाबा राजा दादा दादा दादा लेसा दिस बाबा मा पासा माला बाबा मा हा हे जलय याच रे दायका सिंदे हे जलय याच रे दायका